श्रीमद्भागवत् महापुराणम् एकादशस्कन्धम् असषोडशोऽध्यायः भगवान् की विभूतियो का वर्णनम् उद्धौ उवाच त्वं ब्रह्मपरमं साक्षान् अनाद्यन्तमपावृतं सर्वेषामपि भावानां त्राणस्थित्यप्यव्योद्भवः उच्चावचेषु भूतेषु दुर्गेयमकृतात्मभिः उपासते त्वां भगवन् जाथा तथ्येन ब्राह्मणाः येषु येषु च भावेषु भक्त्या त्वां परभर्षय उपाशीला प्रपद्यन्ते संसिद्धिं तद्वदस्व मे गूढश्चरसि भूतात्मा भूतानां भूतभावन भूत न त्वां पश्यन्ति भूतानि पश्यन्तं मोहितानि ते या काश्च भूमौ दिविवैरसायां विभूतयो दीक्षु महाभिभूते तामय्यमाख्यां ह्यनुभावितास्ते न मामिते सपदाङ्घ्रिपद्मम् श्रीभगवानुवाच एवमेतदहं पृष्ट प्रश्नं प्रश्नविदाम्बर यशुनाविनस्मिनशने सपत्नैरर्जुनेन वै ज्ञात्वा ज्ञातिवधं गर्हम् अर्धम् अधर्मं राज्यहेतुकं ततो निवृत्तो हन्ताहं हतोऽयमिति लौकिकः स तदा पुरसव्याघ्रो युक्त्वा प्रतिबोधितः अभ्यभासत मामेव यथा अहमात्मोद्भवाम्येषां भूतानां सुहृदीश्वरः अहं सर्वाणि भूतानि तेषां स्थित्योद्भवाप्ययः अहं गतिर्गतिमतां कालकालतामहं गुणानां चाप्यहं साम्यं गुणिन्योत्पत्तिको गुणः गुणिनामप्यहं श्रोत्रं महतां च महानहम् सुक्वाणामभ्यहं जीवो दुर्ययानामहं मनः हिरण्यगर्भो वेदानां मन्त्राणां प्रणवस्रुवेम् अक्षराणामकारोऽस्मि पदानि छन्दसामहम् इन्द्रोऽहं सर्वदेवानां वशूनामस्मि हव्यवाट् आदित्यानामहं विष्णो नीललोहितः ब्रह्मर्षीणां भृगुरहं राजर्षीणामहं मनुः देवर्षीणां नारदोऽहं हवेधान्यस्मिधेनुषु सिद्धेश्वराणां कपिलसुपर्णोऽहं यततॄणां प्रजाप्रतीनां दक्षोऽहं पितृणामर्यहं मां पितृणाम् अहमर्य माम् मां विद्युद्धव दैत्यानां प्रहरं प्रह्लादमसुरेश्वरं सोमं नक्षत्रसोधीं नक्षत्रौषधीनां धनेशं यक्ष रक्षसाम् ऐरावतं गजेन्द्राणां यादसां वरुणं प्रभुं तपसां द्युमतां सूर्यं मनुष्याणां च भूपतिम् उच्चैः स्रवासुरङ्गाणां धातूनामस्मि काञ्चनम् यमसंयमता चाहं सर्पाणामस्मि वासुकिः नागेन्द्राणामनन्तोऽहं मृगेन्द्रशृङ्गिदंषिणाम् आश्रमाणामहं तुर्योवर्णानां प्रथमोऽनघं तीर्थानां स्रोतसां गङ्गां समुद्रसिरसावहम् आयुधानां धनुरहं त्रिपुरघ्नो धनुस्मताम् झिष्ण्यानामस्म्यहं मेरुर्गहनानां हिमालयः वनस्पतीनामश्वस्थवोषधीनां अहं यवः